अथ सप्तत्रिंशोऽध्यायः सौतिर्वाच मातुः सकाशात्तं श्रुत्वा वै पन्नगोत्तमः वासु किश्चिन्तयामास शापोऽयं न भवेत्कथम् ततः समन्त्रयामास भ्रातृभिः सह सर्वसः ऐरावतः प्रभृतिभिः वासुकिरुवाच अयम् शापो यथोद्दिष्टो विदितम् वस्तथानखाः तस्य शापस्य मोक्षार्थम् मन्त्रयित्वा यतामहे सर्वेषामेव शापानाम् प्रतिघातो हि विद्यते न तु मात्राभिसप्तानाम् मोक्षः क्वचन विद्यते अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः सप्ता इत्येवमे श्रुत्वा जायते पथु। हृदिवेपथुः नूनम् सर्वविनाशोऽयमस्माकम् समुपागतः न ह्येताम् सोऽव्ययो देवः सपन्तीम् प्रत्यषेधयत् तस्मात्सम्मन्त्रयामोद्य भुजङ्गानामनामयम् यथा भवेद्दि सर्वेषाम् मानःकालोत्यगादयम् सर्व एव हि नस्तावत् बुद्धिमन्तो विचक्षणाः अपि मन्त्रयमाणा हि हेतुम् पश्यामोक्षणे यथा नष्टम् पुरादेव गूढमग्निम् गुहागतम् यथा सयज्ञो न भवेत् यथा वापि पराभवः जनमेजयस्य सर्पाणाम् विनाशकरणाय वै सौतिरुवाच यथेत्युक्त्वा ततः सर्वे काद्रवेयाः समागताः समयञ्चक्रिरे तत्र मन्त्रबुद्धिविशारदाः तत्रा, तत्रा, तत्रा ब्रुवन्नागाः वयम्भूत्वा द्विजर्षभाः जनमे जयन्तु भिक्षामो यज्ञस्ते नभवेदिति भवेदिति अपरे तत्र पण्डितमानिनः मन्त्रिणोऽस्य वयम् सर्वे भविष्यामः सुसम्मताः स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् तत्र बुद्धिं प्रदास्यामो यथा यज्ञो निवर्त्स्यति सनो नो बहुमतान् राजा बुद्ध्या बुद्धिमताम् वरः यज्ञार्थम् प्रक्ष्यति व्यक्तम् नेति वयम् दर्शयन्तो बहून् दोषान् प्रेत्य चेह च दारुणान् हेतुभिः कारणैश्चैव यथायज्ञो भवेर्न सः अथवाय उपाध्यायः क्रतोस्तस्य भविष्यति सर्पसत्रविधानज्ञः राजकार्यहितेर रतः तम् गत्वा दसताम् कश्चित् भुजङ्गः समरिष्यति तस्ंवृते ये क्रु स न भविष्य ये जान्ये सर्पसत्र भविष्य चुज ताशिषं भविष्य